ॐ भगवते श्रीपुरुषोत्तमाय नमः अथ दृढधन्वोपाख्याने पुरुषोत्तमव्रतनियमकथनन्नाम द्वाविंशोऽध्यायः राजोवाच पुरुषोत्तमस्य नियमान् व्रतीनां वदविस्तरात् किं भोज्यं किमभोज्यं वा वर्ज्यावर्ज्ये तपोधनम् ल्मीकिरुवाच पुरुषोत्तमवासे नियमाः परिकीर्तिताः तान् शृणुस्वया राजन् कथ्यमानान् समासतः हविष्यान्नं च भुञ्जीत प्रयतः पुरुषोत्तमे गोधूमाशालयः सर्वाः सितामुद्गायवास्थिलाः कलायकं कङ्गुनीवारा वास्तुकं हिमलोचिका आर्द्रकं कालशाकं च मूलं जीरकं नागरं ्यगुडमैक्षवम् अतैलपक्वं मुनयो हविष्यं प्रवदन्ति क्षौद्रं सौवीरकं तथा राजमाशादिकं चैव राजिकामादकं तथा द्विदलं तिलतैलं च तथान्नं शल्यदूषितं भावदुष्टं क्रियादुष्टं शब्ददुष्टं च परान्नं च परद्रोहं परदारागमं तथा तीर्थं विना च परदेशं परित्यजेत् देववेदद्विजानां च गुरुकोवृतीनां तथा स्त्रीराजमहतां निन्दां वर्जयेत् पुरुषोत्तमे प्राण्यन्नमामिषं चूर्णं फले जम्बीरमामिषं धान्ये मसूरिका प्रोक्ता अन्नं पर्युषितं तथा अजागो महिषी दुग्धात् दुग्धादि दुग्धाद चामिशं। द्विजक्रीता रसा सर्वे लवणं भूमिजं तथा ताम्रपात्रस्थितं गव्यं जलं चर्मणि संस्थितम् आत्मार्थं पाचितं चान्नम् आमिषं तद्बुधैः स्मृतम् ब्रह्मचर्यमधसय्यां पत्रावल्यां च भोजनम् चतुर्थकाले भुक्तिं च प्रकुर्यात् पुरुषोत्तमे रजस्वलाञ्चलेच्छ पतितैर्व्रात्यकैः सह द्विजद्विडवेदबाह्यैश्च न वदेत् पुरुषोत्तमे एभिर्दृष्टं च काकैश्च सूतकान्नं च यद्भवेत् दुष्पाचितं च दग्धान्नं नैवाद्यात् पुरुषोत्तमे पलाण्डुं लशुनं मुस्तां छत्राकं गृञ्जनं तथा नालिकं मूलकं शीघ्रं वर्जयेत् एतानि वर्जयेत् नित्यं व्रती सर्वव्रतेष्वपि कृच्छ्राशक्त्या विष्णुतुष्टये कूष्माण्डं बृहति चैव तरुणीमूलकं तथा श्रीफलं च कलिङ्गं च फलं धात्रीफले तथा नारिकेलमलाबुं च पटोलं बदरीफलम् चर्मवृन्तादिकं वल्लि शाकं तु जलजन्त शाकान्येतानि वर्ज्याणि क्रमात् प्रतिपदादिषु धात्रीफलं रवौ तद्वद्वर्जयेत् सर्वदा गृही यद्यदियो वर्जयेत् किञ्चित् पुरुषोत्तमतुष्टयेत् तत्पुनर्ब्राह्मणे दत्वा भक्षयेत् सर्वदैव हि कुर्यादेतांश्च नियमान् व्रती कार्तिकमाघयोः नियमेन राजन, विना राजन् फलं नैवाप्नुयाद्व्र उपोषणेन कर्तव्यः शक्तिश्चेत् पुरुषोत्तमः अथवा घृतपानं च पयःपानमयाचितं फलाहारादि वा कार्यं यथाशक्त्या वृतार्थिनां व्रतभङ्गो यथा तथा कार्यं विचक्षणैः पुण्येः निप्रातरुत्थाय कृत्वा पौर्वाहिके क्रिया गृह्णीया भक्त्या श्रीकृष्णं च हृदि उपवासस्य नक्तस्य चैकभुक्तस्य भूपते एकं च निश्चयं कृत्वा व्रतमेतत्समाचरेत् श्रीमद्भागवतं भक्त्या श्रोतव्यं पुरुषोत्तमे तत्पुण्यं वचसा वक्तुं विधातापि न शालिग्रामार्चनं कार्यं मासे श्रीपुरुषोत्तमे तुलसीदलक्ष्येण तस्य पुण्यमनन्तसे श्रीपुरुषोत्तमे यमदूताः पलायन्ते सिंहं दृष्ट्वा यथा गजा एतन्मासव्रतं राजन् श्रेष्ठं कृतादपि क्रतुं कृत्वा स्वर्गम् तद्देहे तानि तिष्ठन्ति यः कुर्यात् पुरुषोत्तमं दुःस्वप्नं चैव दारिद्र्यं दुष्कृतं त्रिविधं च तत्सर्वं विलयं याति कृते श्रीपुरुषोत्तमे श्रीपुरुषोत्तमसेवायां निश्चलं हरिसेवकं विघ्नाद्रक्षन्ति शक्राद्याःष्टै पुरुषोत्तमस्य व्रतिनो यत्र यत्र वसन्ति च भूतप्रेतपिशाचाद्य न तिष्ठन्ति तदग्रतः एवं यो विधिना राजन् कुर्यात् श्रीपुरुषोत्तमं सहस्रवदनो नालं तत्फलं वक्तुमञ्जसा श्रीनारायण उवाच पुरुषोत्तमं नियमं मनसा पुरुषो यमः पुरुषस्य भूत्वा पुरुषोत्तमेन रमते रसिकेश्वरेण इति श्रीबृहन्नारदीयपुराणे पुरुषोत्तममासमाहात्म्य श्रीनारायण नारदसंवादे दृढधनवोपाख्याने पुरुषोत्तमव्रतनियमकथनं नाम द्वाविंशोऽध्यायः श्रीपुरुषोत्तमार्पणमस्तु